त्वा निर्णत्याजामि शंसा द्रुहोमुञ्चामि वरुणस्य पाशा अनागतम् ब्रह्मणात्वा कृणोमि शिवे तेत्यावाः पृथिवी हम् त्वाम् क्षेः त्रिणात्यामुञ्चामि वरुणस्य पाशात् अनागतम् ब्रह्मणा त्वा कृणोमि शिवे ते द्यावाः पृथिवी उभेस्ताः शन्ते वातोः अन्तरिक्षेवयोः धाक्षन्ते भवन्त हम् संसा क्षेत्रिरान् निर्णत्याजामि शंसारुभौमुञ्चामि वरोणस्य पाशात् अनगसम्ब्रह्मणा त्वा कृणोमि शिवे चे पृथिवीभेस्ताः इमाजा देवी प्रतिशस्तरस्रोवात पत्नीरभिसोरुजो विचष्टेः वाहम् त्वाम् क्षेत्रियामित्यामि शंसा द्रुहोमुञ्चामि वरुणस्य पाशात् अनागतम् ब्रह्माणा त्वा करोमि शिवे ते द्यावाह पृथिवीभेस्ता सासत्त्वान्तर्जन स्यात् धामिण्डक्ष्मादेपराचैः वाहम् त्वाङ्क्षे त्रिरामि शंसा द्रोमुञ्चामि वरुणस्य पाशात् अरागतम् ब्रह्मणा त्वाग्णोऽपि शिवेते ध्यावाः पृथिवीभेस्ताः अमुक्था यक्ष्मा दुरितादभ्या द्रुढः हम् त्वाम् क्षेः त्रिगान्निरत्यायामि शंसा गृहो मञ्चामि वरुणस्य पाशात् अनागतम् ब्रह्मणात्वा कृणो वि शिवे ते द्यावाह पृथिवी लोके हम् त्वाम् क्षेत्रियाम् निरृत्यायामि शंसा द्रुहोमुञ्चावि वरोणस्य पाशाः अनागतम् ब्रह्मणा चाकणो वि शिवे देत्यावाह पृथिवीभेस्ता सूर्यभव सोऽग्राज्ञा अधिदेवामुञ्चन्तोः अदृजन्निरेणातः एवाहं त्वाम् क्षे त्रिजान् निरडत्याजामि शंसा द्रुहोमुञ्चामि वरुणस्य पाशाः अनागतम् ब्रह्माणात्त्वा कृणो विशिपेत् ध्यावाह पृथिवी उभेस्ता दोष्या दोषीरतिहेत्याहेतिरति मेऽन्या मे निरासि आप्नुर्शेयान् समति समङ्क्राहा श्रो दिप्रतिसरोति प्रत्यभिचरणो आप्नुहिस्तेजाम् समति समङ्क्राम प्रचितमभिचरयोस्माम् वेष्टियम् भयम् दृष्मः आप्नुहि स्तेनाम् समति समङ्क्राम सूर्यरसि वर्त्योधासिनो कनोसि आप्नुश्रेयाम् समदि समङ्ग्राह शुक्रोऽसिभ्राजोऽसिरसि ज्योतिरसि आपृहि श्रेयाहम् समदि समङ्ग्राह वा जावा पृथिवी उर्वा, उर्वा। आन्तरिक्षम् क्षेत्रस्य पत्योरुघाजोद्भूतः उतान्तरिक्षरुवाद गोपम् तर्हत्यन्ताम् मरीप्यमाले इदम् देवाशृणुतये यज्ञिकास्तभरत्वा चो मह्ये मुक्तानि शंसति पाशे तद्धो दूहिते नियुज्यताम् यो अस्माकम् मन इदम् हिनस्ति इदमिन्द्रशृुहितोभयत्वादम् कुलीशेनेव वृक्षम् यो अस्माकम् मन इदम् हिनस्ति भिः रादित्यैभिर्वसुभिरङ्गीरोपूर्दुरः पितृणा मामु हर सादैरा यावा पृथिवी अनुमादिथाम् विश्वे देवासो अनुमारभम् अङ्गेरसः पितर सोम्यासः पापमार्छ त्वमकामस्य कर्ता ्रह्मवायोनिन्दिष क्रियमाणम् तपोम् झडस्मै वृारी सन्तु ब्रह्म द्विषम् जौरभिसन्द्रवाजी सप्त प्राणानष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा अयायवस्य सादनभग्निदूतो अलम् कृतः आदधामिते पदं समिद्धे जातवेदशि अग्निः शरीरम् मे भेष्वसंवागपि गच्छतु आयुर्दाग्ने जलसम् मृणानो घृतप्रतीको घृतपृष्ठोऽग्ने घृतम् पीत्वा मधुरानुगव्यम् पितेव पुत्रानभिरक्षता इमम् परिधत्तधत्तनोगत्र सेवम् जलामृत्यम् ृहस्पति अप्रायच्छद्वादनेतत् सोमा जय राज्ञे परिधातमावौ परिदम् वातोः अधिता स्वस्तरे भोर्दृष्टीरादर्ति बाहु शतञ्जलीरीरानश्च कृण्वन्तु विश्वे देवायुष्टे शरदर्शनम् यस्य देवादप्रथमवास्रा आम् हराः वस्तन्त्वा विश्वे वन्तु देवाः तन्त्वाभ्यातरस्तु वृथा वर्धमानवरो जायन्ताम् बहवस्तु जाताम् निःसालाम् धृष्टम् दिर्ण धृणमेकवाद्याम् जीघ्वम् सर्वाश्चण्डस्य भक्त्यो नाशयामस्तदान्वाहा निर्वो गोष्ठादयाम शिरिरक्षा निरूपादशात् निर्वो मगुन्द्यादितलो गृहेभ्यश्चादयामहे भोतपतिर्विजत्तिन्द्रश्चेतस्तदान्वा गृहस्य बुद्ध आसीः द्रोमज्रेणाधीतिष्ठतु यदि स्थक्षे द्विजानाम् यदि वा पुरुषे हि ताः यदि स्थलस्यभ्यो जातारश्चेतस्तदाम्वाह परिधामाहन्यासा मासुर्गाष्टाः विवासरन् अनेहे शं सर्वाः नादम् भोगश्चौश्च पृथिवी च न बीभीतो नरिष्यदः एवामे प्राणाली यथाहश्च राभीतो नरिष्यदः एवामे प्राणयवालीहे यथा सूर्यश्च चन्द्रश्च न बीभीतो नरिष्यदः मे प्राणमालिभे यदा ब्रह्म चक्षत्रम् च नवीभीतो न निश्यादः एवमे प्राणयमालिभेः यवा सत्यम् चानृतम् च नबीभीतो न निश्यादः एवमे प्राणयमालिभेः यदा च भल्यम् च न विभीतो देवावे प्राणामालीभेः प्राणाः बालो मृत्योर्मा पाधम् स्वाहा द्यावाः पृथिवी उपश्रत्या मा पातम् स्वाहा सौर्य चक्षोषा मा पाहि देवे स्वाहा विश्वम्भयश्वरताबाहि स्वाहा ओजोऽस्योजो मेधा स्वाहा सहो, सहो मेधा स्वाहा बलमति बलम् मेधा स्वाहा आयुरस्यायुर्म मेधा स्वाहा श्रोत्रमति श्रोत्रम् मेधा स्वाहा चक्षोरथ चक्षुर्मेधा स्वाहा परिमाणे मति परिमाणम् मेधा स्वाहा भ्रातृम्यक्षरेण मति भ्रातृर्म्यचादानम् मेधा स्वाहा शपत्नक्षरेण मति नवत्तम् मेधा स्वाहा अराय अक्षरेण वस्तरायजाम् मेधा स्वाहा शाचक्षया नमसि पिता जातानम् मेधा स्वाहा सदाङ्गया न जातानम् मेधा स्वाहा अग्नेयत्ते तपस्तेन तम् प्रति तपयोस्माङ्गेष्टिजम् वयम् विष्मः अग्नेयत्ते हरस्तेन तम् प्रति हर अग्नेयत्तेऽचस्तेन ततम् प्रत्यर्चयोस्मान् वेष्टिरम् वयम् विश्वः अग्नेयत्ते शोचस्तेन तम् प्रति शोचयोस्मान् वेष्टिजम् वयम् विश्वः अग्नेयत्ते तेजस्तेन तमतेजसम् तृणोजोस्मान् वेष्टिजम् वयम् विश्वः वायोजयत्ते तपस्ते नयतम् प्रतितपयोस्मान् वेष्टिजम् वयम् गृष्मः वायोजयत्ते हरस्ते नयतम् प्रतिहरयोस्मान् वेष्टिजम् वयम् गृष्मः वायोयत्तेऽर्चिस्ते नयतम् प्रत्यर्चयोस्मान् वेष्टिजम् वयम् धमः योजर्ते शोचस्तेन तम् प्रति शोचरोस्माम् वेष्टिजम् वयम् विष्मः वायोजस्तेन तमभेजसम् कृणोजोस्मान् वेष्टिजम् वयम् विष्मः सूर्ययर्ते तपस्तेन तम् प्रति तपयोस्माम् वेष्टिजम् वयम् विष्मः सोजयत्ते हरस्तेनतम् प्रति हरयोस्मान् वेष्टिजम् अयम् दृष्मः सोजयत्तेऽस्तेनतम् प्रत्यर्चयोस्मान् वेष्टिजम् भजम् दृष्मः सूर्ययत्ते शोचस्तेन तम् प्रति शोचरोस्मान् वेष्टिजम् अजम् दृष्मः सूर्ययत्ते तेजस्तेन तपतेजसङ्कृणो यस्वाम् वेष्टिजम् वजम् विश्वः चन्द्रयत्ते तपस्तेन तम् प्रति तपयोस्मान् वेष्टिजम् वयम् विश्वः चन्द्रयस्ते हरस्तेन तम् प्रति हरयो स्वाम् वेष्टिजम् वयम् विश्वः चन्द्रयर्ते चेन तम् प्रति चर्चयोस्मान् वेष्टिजम् वयम् दृष्मः चन्द्रयर्ते शोचस्तेन तम् प्रति शोचयोस्मान् वेष्टिजम् वयम् दुष्मः चन्द्रयर्ते तेजस्तेन तमातेजसम् कृणोजोस्मान् वेष्टिजम् वयम् दृष्मः आपो यद्वस्तपस्तेनयतम् प्रतीतपरयोस्मान्द्वेष्टियम् वयम् विश्वः आपोयद्वोहरस्तेनतम् प्रतिहरतयोस्मान्द्वेष्टियम् वयम् विश्वः आपोयद्वोर्त्यस्तेनयतम् प्रत्यर्चरयोस्मान् वेष्टियम् वयम् विश्वः आपो यद्वः शोचस्तेन तम् प्रतिरोचतयोस्माम् वेष्टयम् वयम् दश्मः आपो यद्वस्तेजस्तेन तमतेजसं कृणुतयोस्माम् वेष्ट्यम् वयम् दश्मः शेन भगवेन भ पुनर्वोजन्तु जातवः पुनर्हेयके मेदिनः यश्च तमत्रो भवता हैत्रमत्र स्वाभांसान्यत्र पुनर्गोयन्तु जातभः पुनर्हेतिः मेदिनः यस्य तमत्र नो भवता हैत्रमत्र स्वामांसान्यत्र भ्रो गा नो भ्रोक पुनर्गोयन्तु जातभः पुनर्हेतिः के मेदिनः यस्य स्थ समत्तरोभ्राहेतवत्तस्वा मांसान्यत्र सर्पानुसर्पनर्वोजन्तु जातवः पुनर्हेतिःके मेदिनः यस्य स्थ समत्तरोहेतवत्तस्वा मांसान्यत्र ज्योर्नि पुनर्वोजन्तु जातवः पुनर्हेतिः के मेदिनेः यस्य स्थ तमत्वयो वप्राहेत्तमत्तस्वा माम् सान्यत्र भूब्धे पुनर्वोयन्तु जातः पुनर्हेतिश्चे मेदिने यस्य स्थ तमत्वयो वप्राहेत्तमत्तस्वा माम् सान्यत्र अर्जुने यस्य स्थ दमत्तरो भक्प्राहेल्तमत्र स्वामाम् भरोजि पुनर्वोजन्तु जातभक्वर्हेतिह्ये मेदिलेः यस्य स्थ दमत्तरो भक्प्राहेल्तमत्र स्वामाम् सान्यत्रेवीपर्ण्यसन्दरत्यागः उग्राहिरन्मजम्भे भक्षि सहस्वती सहमानेरम् प्रथ वृष्टिपर्ण्यजायत पराहम् दुर्लाम् शिरो वृष्टामि शकुनेरिव परायामशक् पावाहनम् यश्च स्वातिम् निहीर्षति गर्भाम् कण्वन्नाश च कृष्णे पर्णे सहस्व गिरिमेनाम् आवेशय कणवाम् जीवितयो श्निवर्ण्यग्निरेवानुदहम् पराजरेणान् प्रणोदखण्तजोपान् तवान् तिरत्रव्यादोः अजीतम् देहयन्तु पशवो जेपरेजुर्वाजुर्जेशाहम् तः तारम् जजोषा त्वस्ताम् लोके निवेदास्मिन् तान् गोष्ठे स वितारि यच्छतु इमम् गोष्ठम् बसवः संस्रवन्तु बृहस्पतिदानाय प्रजानन् श्रीवायिनत्वाग्रमेषामा जग्मुषोः अनुमते निगच्छवन्तु बसवः समश्वास्तधान्यस्तजास्पादिस्तम् साव्येन विडाजिभोमि संसिञ्च मेगतवान् क्षीरम् समाज्ये न संसिक्त अस्माकम् वीराध्रुवागोपय गोपतौ आहरामेतवान् क्षीरमाहारम् धान्याम् रसम् आहृता अस्माकम् वीरा आपत्नी नमस्तकम् ने क्षत्रप्राम् जाति सह मानाभिशम् प्रति प्राचोदस्य रहसान् कण्षधे सुवर्णस्तान्वृन्दोकरस्ताः शरन्नसा प्राशम् प्रति प्राचोदस्य रहसान् कण्षधे इन्द्रो चेत् दत्त प्राशम् प्रति प्राचोरक्यरयसान् गण्डधे प्रातान्द्रूरे धस्तरीतरे राजम् प्रति प्रादोरक्यरयसान् कण्ठधेसत्रोक्षः साराभृकाम्य प्राजम् प्रति प्राचोरक्यरयसान् कण्ठधे रुद्वील प्रासम्प्रति प्रासो यस्य प्रासम् इन्द्राभिदासति अधीनाम्भिः प्रासि मामुच्चरम् कृति त्वभ्यमेव जिमन्वर्भतामयम् एव मन्ये भृत्यवोहि मातेव पुत्रम् रमा उपस्थे मित्रयेणम् मित्र्या त्वार मित्रयेणम् वरुणो वा निषादाः जनामृत्युम् गृणताम् संविधानौ तदग्निर्भोताः वजुना निषिद्वान् विश्वा देवानाम् जने वा विभक्ते त्वमी जनित्राः म् प्राणोः धेन्नोः पाणो मेमम् मित्रा वा अमित्राः जनोत्वाराजरा मृत्यम् कृणताम् संविधानेस्थिते प्राणाभ्याम् गुमितशतम् हिमाः हिमव्यायुषेव राजन् मा मा देवा स्वादिते शर्मा रक्ष विश्वे देवा जलदश्चर्यथा सन् पाथीवश्चरथे देवा भगश्च तम्रो वरे आयुष्यमस्माग्निर्यो वच्चभा बृहस्पतिः आयोरस्मै देहि जातमेदः प्रजान् दधित्यस्मै रायस्वशम् सवितरासु वास्मि सन्दीवातिथ दत्तवायम् आशीर नैवोर्जमुदसौ प्रजास्तम् दक्षम् भजे तसौ जयम् क्षेत्राणि सहसान्द्रयम् बाणो अन्यान धरान्त्रपत्नान् इन्द्रेण दत्तो वरुणेन शिश्रो वरुद्भिः रुग्रप्रहीतो नागन् एतवाहम् या पृथिवे उपसेवाक्षोधन्मारु ऊर्जैवस्मा ऊर्जस्वदी हर तम् पयोः अस्मै पयस्वती धत्तम् ऊर्जैवस्मै जावा पृथिवे आधाताम् विश्वे देवा मरुधवूर्जे शिवाभिष्टे हृदयन्द्रयाञ्जनेव मोहेष्ठा सुवर्गाः सवादिनो सवासिनो विवराम् अन्धमेतमष्टिनोः रूपम् पारिधाय माया इन्द्रयेताम् सिद्धो अग्रगोर्जराम् पदामजराम् सातयेता यदेतम्भूम्याधिकृतो मधायति मत्रामिते मदो यथामहाकामिन्यसो जामन्नापगा असाः सञ्चेन्द्रियातोमिना सञ्चमत्राम्भगाः सो वग्मदसञ्चित्तानि समव्रयता यत्सो वर्णानि वक्षवो अनमेवादी वक्षवाः तत्र मे गच्छताद्भवम् सल्लीकम् मानयथाः यदन्तरम् तत्त्वाज्ञम् यद्वाद्यम् तदन्तरम् कन्यानाम् विश्वरोः पाणाम् मनोहागृभायौषधे ये यमगणपती का वाजनीकामोऽहमागमम् अश्वः कनिक्रदव्यसा भगे नाहम् सहागमम् इन्द्रस्य या महीडर्तिमेर्विश्वस्य सर्हणि ल्कण्डोन् सर्वान्मजसाजम्भयाम अल्कण्डोन् धन्निमहदामधेन दूलादो मूवन् छिष्टा नष्टान्वितरामिभाचार्यः कृक्षिणादये ष्टेयम् कृमिन् अवस्तवम् यत् भरम् क्रिमीम् वचसायम्भयामसि ये क्रिमजः पर्वदेशोपनेष्वशेषु वचुः स्वर्वान्तः ते अस्माकम् तन्ववाविदेषु सर्वम् तन्त्रम् मेलनीभक्ष्मीणा उद्यन्ना नित्यक्रिमेन्हन्तु निम्बोदम् भन्तु रश्मिभिः ये अन्तःक्रिमयोगवे विश्वरोपञ्चतुलक्षम् कृमिन् तारङ्गमद्योरम् श्रीराम्यस्य पृष्टेरपिशाः अत्रिवर्दक्रिमयोहन्यगम्भरवज्जपदग्निवत् पदस्य ब्रह्मणासम् तेनहङ्कृमेन हतो राजा क्रिमीणामुदेषां सपतिर्हतः हतो हतमाहता क्रिमिर्हतभ्राहता हतस्पथातो अथो ये सर्वे ते क्रिमजो हताः प्रदेशणा हा। शृङ्गेयाभ्याम् विदुधायति भिनीते कुसुम्भम् यस्तेः विषधानाः करना अर्थेभ्याम् तेनाशीकाभ्याम् कर्णाभ्याम् चुभोकादशि यक्ष्मम् शीर्षण्यम् मर्तिष्ठा जक्ष्माया विवेहाविते ग्रीवाभ्यस्तवृष्ट्याभ्यर्थीकलाभ्यो लोक्या यक्ष्मम् दोषण्या आंसाभ्याम् बाहुभ्याम् विवेधाविधे रुदराचे परिक्लोम् नेक्ष्णापार्श्वाभ्याम् यक्ष्मम् मतस्ताभ्याम् नीम्भो यक्ष्णष्टे गुवेहामति आेभ्यस्ते गुदाभ्यो वरिष्ठो रुदरा यक्ष्मम् कुक्षिभ्याहम् लासेर्नाभ्यानुवेहापि ते पूर्वभ्याहम् ते अष्टीवद्भ्याम् पार्ष्णभ्याम् प्रपदाभ्याम् यक्ष्मम् भसत्या श्रोणिभ्याम् भासदम्भंस सो विगृहामिते अस्तिभ्यस्ते मज्जभ्यश्नावभ्यो धमनिभ्यः यक्ष्मम् पाणिभ्यः मङ्गुलिभ्यो नखेभ्यो विवृहामिते अङ्गेरङ्गेलो नीलोस्ते पर्वाणि पर्वणि यक्ष्मम् ते वयम् कश्यपस्य विश्वन्त्यम् विवृधामसि यजीशेः पशुपतिः पशूनाम् चतुष्पजामुतजोद्विपदा निश्रेः तस्य यज्ञम् भागमे तु राजस्फोटाय देवानम् गतन्ता प्रपञ्चन् त्वभुवानस्य रेतोः घातुम् भक्त विदेवानाय देवाः उपाकृयतम् शतमानम् यदस्थाः क्विजम् देवानामप्येदुपाधाः ये दे मध्याः नेभ्याः न अन्मये क्षणम् कर्म चक्षुषा च अग्निष्टानग्रे प्रमो मोक्लदेवो विश्वकर्मा प्रयनः सौन्दराणः हे राम्या पदयो विश्वरोपाविरोपाः बालिश्चाग्रे प्रो माक्तु देव प्रजा प्रजरासंवराणः प्रजानन्तः प्रतिगृह्णन्तु पूर्वे प्राणमङ्गेभ्यः परियाचरम् तम् दिवम् गच्छ प्रतिष्ठा श्रीरे स्वर्गैया हि पतिवृत्नैव जानैः ये यादेशादृष्टिस्पृष्टिम् नष्टाम् विश्वगल्मा यज्ञपतिमिषयेन सार्भक्तम् जाननुप्यमाहानम् वथव्यान् सोगानष्टे विशृजतु विश्वगल्मान् सोऽह मान् मन्यमानो यज्ञस्य वित्तान् सा मनेन धीराः चक्रवाम् बद्धरे घोरार्षयो नमोऽस्तेभ्यश्चक्षुर्विसश्च सत्यम् बृहस्पतामो विश्वकर्म नमस्ते पास्या श्रोत्रे न साजुमि म् वित तम् विश्वयन्तु सुमनस्य माहाराः आरोहोकमे वरेषु समानेषु वल्गुरोषम् वत्या सौभागमस्त्वस्य सोमजुष्टम् ब्रह्मजुष्टमर्यम्नाम्भृतम्भरम् धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् यमग्नेन रीपतिम् विदेशतो मोहिराजा सुभगां कृणोति सुभा पुत्रान्महितापतिम् सुभगा विराजतो यथा करोम गवंश्चारुरेषप्रियो मृगाणाम् सुरदा भगसि चतुष्टे नुनारे संप्रियापत्या राजयन्ति भगस्य नाममारोह पूर्णामरोवदस्मती अयोः प्रदाहारो भरप्रजिनाम्याः आकरम् एव सङ्कृ सर्वम् प्रदक्षिणम् कृष्णयोरप्रजनाम्याः इदम् हिरण्यम् गुङ्कुलम् वय मोक्षोऽ ्योषधे ओ इति द्वितीयम् काण्डम् समाप्तम् ओ अथ तृतीयङ्काण्डम् अद्भ्यन्न शत्रून् प्रत्ययेतु विद्वान् प्रतिदहन् ससेनाम् मोहयतुपरेषाम् निरहस्ताम् च गणेदामारुतदीदृशे साभिप्रेतम् अमी गृढम् वसगो नान्येतु विद्वान् अमित्रसेनाम् माघवन्नस्मान् शत्रो जीभिः युगन्तारिन्द्रवृद्रहन्नग्निश्च दह तम् प्रति प्रसुहोदर इन्द्र प्रवताहरिभ्याम् प्रदे वज्रः प्रभृणन्ने तु शत्रोर जहि प्रदेवो अनोजपराः ज्योतिष्पत् सत्यम् कृत इन्द्रसेनाहम् जाताम् विशोचो विनाशया इन्द्रसेनाम् मोहयतु मरुतो घन्द्वो ज चक्षुम् षग्निरा दत्ताम् पुनरेतुपराजिता अग्निर्वाहो धूतप्रत्ययेतो विद्वान् प्रदिदहम् अभिजत्यपराहाजिम् स चित्तानि मोहयतुपरेषाम् चक्रमध्यासवेदाः अयमग्निरमो मोहद्यानि चित्तानि मोह्रीमोकसप्रमोहो धतु सर्वदा इन्द्रचित्तानि मोहयन् नर्वाचर अग्नेताम् च ेषा पिताथोः चित्राणि मुह्यता अथोरितम् परिण्यहि अमीषाम् चित्राणि प्रतिबोहयन्ति परेहि अभिप्रेहिलोके अग्राह्यामित्रां प्रमाधा विद्र ह मरुतः परेणामस्माने त्यभ्यो च सः स्पर्धमाना ताम् विध्यव्रते अन्यन्न कारानात् अजिकदर्पलाभूपदग्नेभ्य च स्मरोदयसी कुरुजी युञ्जन् कृत्वा मरुतोः विश्ववेद आमुन्नमासारम् दूरे चित्तमनुषा च इन्द्रमाच्चा वयन्तु सख्यायवित्रम् यद् यत्रीम् मृहलीमर्कमस्मै रोत्रामण्या धृषन्ददेवाः अग्रस्त्वा राजावरुणारूपयतु सोमस्त्वारुपयतु पर्वा तेभ्यः इन्द्रस्त्वाह्वयतु विभ्य आभ्यस्येनो भूत्वा श्येनो हव्य परस्मादन्यक्षेत्रे अपरुद्धम् चलम् तम् अस्मिन् पन्थाम् प्रणुताम् सुगन्त इमम् स जाता अभिसंवेशध्वम् वयम् तत्त्वा प्रतिजना प्रतिमित्रा वृषता इन्द्राणी देवास्ते विशिक्षे मादीधरन्ते हवम् वितो नष्टे निश्च्याः ्रतम् कृत्वा क्षेममिहापगमर आत्वाष्ट्रम् सहवर्चिहि विशेषाम् विराज सर्वास्त्वा राजम् प्रतितोऽक्वयम् तो महत्य नमस्याः भलेह ताम् विशोणताम् राज्यायत्वाम् राज्या च देवेः ष्मन् राष्ट्रस्य कौलिश्रयः विभजावसूनि अर्चत्वायन्तु हविनस्त जाता अग्निर्दोतोः जिनः सञ्चरादये जाया पुत्ररा सुमरासो भवन्तु बहुम् परिम् श्रीमश्यास उग्रः अश्विनात्वाग्रे मित्रावरुणोभाविष्णे देवामरुतस्त्वाह्वयन्तु अथ मनो वसुदेजा जग्नुष्वतो उग्रो विभाजावसोरि आप्रद्रवपरामस्याः परावदश्चिवेत्या पृथिवी उभेस्ता तदम् राजावरुणस्तथा हरस्ताय वत्स उपेदवेहि इन्द्रेन्द्रमनुष्या परेस्थावरुणैः संविधानः स्व त्वायमक्वत्से तधस्ते सदेवान्यक्षवो कल्पयात् विषाः पत्याः रेवतेर्बहुधा निरूपाः सर्वाः सङ्गत्य वरीरस्तेरक्रन् तास्ता सर्वाः संविधानाह्वायम् सुमनाः वशेह आयमागम्पन्नमणिर्बलीबले सपत्रा भोजोः देवानाम् पयवोषधीनाम् मत्समाजम् मत्त प्रजावन् महिक्षत्रम् पर्णमणे महियता त्रयम् अहम् राष्ट्रस्याः भीजोः जातमुत्तरः यन्निदर्वनस्पदौ गुह्यम् देवा प्रियम् मणिम् तमस्मभ्यम् वादुषा देवादुभर्त मे सोमश्च वर्णस्थः उग्रभागम् इन्द्रेतो वरुणेन शिष्टः बहुरोच मानो दीर्घायुत्वाय शरसाहारदाय आमाहारृक्षकर्णमणिर्मह्याः निष्टदातरे यथाहमुत्तरो साम्यर्यम् न उत संविदाह ये हिवाहानोरचकारा उपस्तेन् पर्णः पर्यन्तम् सर्वाः कण्ड अभितो जनाः ये राजाः न राजकृतस्सूता रा ग्रामण्यश्च ये उपस्तेन् पर्णः पर्यन्तम् सर्वाः कण्ढभितो पर्णो पर्णोः वाणस्तयोः निर्वीरो वीरेण मया संवत्सरस्य ते च सातेन बद्धामिब्राह्मणे पुमान्प्रातो स्वहन् शत्रोन्मा मकान्यानहन्देष्वि कालश्वत्थनिश्रेणीः शत्रोऽधरः इन्द्रेण वृत्रघ्रामेरीवित्रेण वरुणेन चश्वत्थनिलभरणन्तर्मभक्ता म् सर्वान् निर्बन्धिनानहम् देष्विजेतराम् यस्तः मानश्चलिवादहारी वर्ण तेनाश्वत्थ त्वया वयम् सपद्रान् सहिणीमहि श्रीतिर्मत्योर्वाक्यैः अश्वत्थशत्रोः मामकाञ्ज्ञानहम् देष्विजेतराम् त्यानारोहम् देवा मे सत्रो मोब्धानम् विष्पग्भिन्दि सहस्रे धराञ्च प्रप्लवन्तान् छिन्नानौ देवनान् न भे बाधप्राणुक्तानाम् पुनरस्ति निवर्तानम् प्रीणान्नुते मनसा प्रचित्तेनवत ब्रह्मणा प्रीणाम् वृक्षस्य शाकाश्वक्षस्यमहे हरिणस्य लघुश्चीर्णमीभेदम् सक्षे त्रिजम् विषाण याविशुचीन अरुत्वा हरिणो वृणाः बद्भिश्चतुर्भिरक्मीय विषाः नेविश्च गुष्पितम् यदस्तक्षे त्रिजम् हृदि अतो यदरोच ते चतुष्पक्षमिवच्छ सर्वम् क्षेत्रिजमङ्गेभ्यो नाशजाम अमूये दिविसुधगे विजृतौ नाम तारे विक्षेत्रियस्य मुञ्चतामथ मम आप इब्बाबूषजीरापो ममी मया आपो विश्वस्य भेहजी स्वा स्वा मुञ्चन्तु याक्षेत् त्रि वेदाहन्तस्य भेदजम् क्षेत् निजम्नाः जयामि त्वत् अपारे नक्षत्राणामपभासवृषधाः भूता अपास्पत्सर्वम् दुर्भूतमपक्षेत्रियमुच्छतु आयाः तु मित्र तु निष्कल्पमानस्तम् वेदयम् पृथिवीमस्याः अथस्मभ्यम् वरुणो वायुरग्निर्बृहद् राष्ट्रम् संवेष्टम् दधातु धाता राजस्तूषन्तामिन्द्रस्ता प्रति हर्यन्तु मे वचाः भुवे देवी मदीति शूरपुत्राम् स जातानाम् मध्यमेष्ठा यथा सोमम् स वितारम् नमाभिर्विश्वानादित्या अहमुक्त अयमग्निर्देघमेव जाते निर्थातिप्रवर्तिः विवेदशासनफलो गा गोपाः पुष्पदमादत् अस्मैतार्विश्वो देवावोपसंयन्तु सम्भोमनाम् अमीरे विव्रता स्थनयता अहम् गर्भ्रामि मनतामनाहम् उदयामितवस्य विषमस्य माता पुनः तथा तम् मनोराकृतम् ङ्गेताः श्रवस्तुष्मम् बद्धिम् कृण्वन्तु बन्धुराः ये श्रवस्य वस्त्रेवानी वासुरमालयाः श्रुता कबिरी दोषेण बन्धुरागा भवस्य च दुष्टे हित्वा भर्त्स्यामी दोषयिष्यामि उदासवो रथा इव शपथे विस्तरिष्यत एकाशतम् विष्कन्धानि विश्चेता पृथिवी मनो येषाम् त्वामग्रौर्जर्मणिम् विष्कन्ध दोषणम् प्रथमा हव्यो वासदा हेतुराभवज्जने स्वान पयस्पति दोहामुत्तरामुत्तराम् समा ेव प्रतिनन्दम् दिरात्रिम् धेनुपायी संवत्सरस्य या पत्नी सानोस्तु सुमङ्घरे संवत्सरस्य प्रतिमा याम् त्वा रात्रिपास्माहे स्वायुष्मतीम् प्रजाम् राजस्पोषे न संश्रेज इयमेव सारा प्रथमाव्यौ शास्वित महान्द्रो अस्याम् महिमानो अन्तर्वधो गायन मह गज्जरित्री आनस्पत्याग्रावाणो घोषमक्रतः हविष्ण्वन्तः परिवत्सलीरम् वेदाष्ट्रगेतु प्रजलः सुवीराजम् स्याह महपदोलनीतवत्सली सर्वम् जात वेदः प्रदेहव्याग्रीभाया पशो विश्वरूपास्तेषाम् दत्तानाम् महिरन्तिरस्तु आमाः पुष्टे चपोषे धरात्रि देवानाम् सुमहतो स्याम पूर्णा सर्वे परा पुनरा सर्वान् यज्ञान् सम्भुञ्जतिरणोर्जन् आयमागन् संवत्सरः पतिरेजाष्टकेतव सा रायुष्मतीम् प्रजाम् राजस्फोटे संसृज ऋतोन् यजस्वीणार्त वार्ता जयना समाः संवत्सरामासाम् भूतस्य पद ऋतुभ्यष्ट्वार्तरेभ्यो माध्यस्तं धात्रे धात्रे समृधे घोतस्य पतरे ये इडाजुर्वातो वयम् देवान् धृतवदायने विभ्रतो वयम् सम्योपगोपादः एकाष्टका तपसा तप्यमाहानाजानगर्भम् महिमानविन्दम् तेन देवाव्यसहन्तशत्रोः हन्तादस्यो नाम चीपतिः इन्द्रपुत्रे सोमापुत्रे दुहितादिप्रजापादे कामाः कामानस्माकं पूरः प्रदे गृह्णाहि नो